नारायणीयं दशकं ट्वेल्व् मीटर् वसन्ततिलकं स्वायम्भुवो मनुरधो जनसर्गशीलो दृष्ट्वा समये सलिले निमग्नाम् स्रष्टारमाप शरणं भवदङ्घ्रिसेवा तुष्टाशयम् मुनिजनैः सत्यलोके। कष्टम् प्रजा सृजदि मय्यवनिर्निमग्नास्थानं सरोजभव कल्पय तत्प्रजानाम् इत्येवमेष कथितो मनुना स्वयम्भूरम्भोरुहाक्ष तव पादयुगं व्यचिन्तीद हा हा विभो जलमहन्यपिबं पुरस्ताद्यापिमज्जदिमही किमहं करोमि युद्धं त्वदङ्घ्रियुगलं शरणं यतोऽस्य नासा पुटात् समभवत् शिशुकोदरूपी अङ्गुष्टमात्र वपुरुत्पतितः पुरस्ताद्भूयोध कुम्भिसदृशः समजृम्भदास्त्वम् अभ्रे तथाविधमुदीक्ष्य कोसावचिन्त्यमहिमा किडिरुद्धितो मे नासापुडात् किमु भवेदजितस्य माया इद्धं विचिन्तयदिधादरि शैलमात्रः सद्यो भवन् किल जगर्जिधोरघोरम् तं निनादमुपकर्ण्यजनस्तपःस्थाः सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् तत्स्तोत्र हर्षुलमनाः परिणद्यभूयस्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ऊर्ध्वप्रसारि परिधूम्र विधूतरोमा प्रोक्षिप्त वालधिरवाङ्मुखघोरखोणः तूर्णप्रदीर्णजलदः परिपूर्ण दक्षणास्तोदृन्मुनीन् शिशिरयन्नवतेरिधत्वम् अन्तर्जलं तदनुसङ्कुलनक्रचक्रं भ्राम्यतिमिङ्गिलकुलं आविश्यभीषणरवेण रसातलस्तानाकम्पयन्वसुमदीमगवेषयस्त्वं दृष्ट्वा ध दैत्यहदकेन रसातलान्धे संवेशितां चटिदिकूडकिडिर्विभो त्वम् आपादुकानविगणय्य सुरारिखेडान्दंष्ट्राङ्गुरेण वसुधा मदधा सलीलम् अभ्युद्धरन्नथ धराम् दशनाग्रलग्नमुस्ताङ्गुराङ्गिद इवाधिकपि वरात्मा उद्धूदखोरसलिलाज्जलधेरुदञ्जन् वपुरीश्वर पाहिरोगाद सर्वत्र गोविन्दनाम सङ्कीर्तनम् गोविन्द गोविन्द